अमर्षजो हि सन्तापः पावकाद्दीप्तिमत्तरः येनाहमभिसन्तप्तो न नक्तन्न दिवाशये अयञ्च पार्थोऽ बिभत्सुर्वरिष्ठो ज्याविकर्षणे आस्ते परमसन्तप्तो नूनम् सिंह इवाशये योऽयमेकोऽभिमनुते सर्वान् लोके धनुर्भृतः सोऽयमात्मजमूष्माणम् महाहस्तीव यच्छति न कुलः सह देवश्च वृद्धा आसते जडमूकवत् सर्वेते ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः अहमेकश्च सन्तप्तो माता च प्रतिविन्ध्यतः प्रियमेव तु सर्वेषाम् सर्वे हि व्यसनम् प्राप्ताः सर्वे, सर्वे युद्धाभिनन्दिनः नातः पापीयसी काचिदापद्राजन् भविष्यति यन्नो नीचैरल्पबलैराज्यमाच्छिद्य भुज्यते शीलदोषाघृणाविष्ट आन्दृशम् स्यात्परन्तप क्लेषाम् स्थितिक्षसे राजन् नान्यः कश्चित् प्रशंसति श्रोत्रियस्येव राजन राजन् विपश्चितः अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी घृणी ब्राह्मणरूपोऽसि कथम् क्षेत्रेभ्यजायथाः अस्याम् हि यो नौ जायन्ते प्रायशः क्रूरबुद्धयः